गणेशपुराणम् उपासनाखण्डम् अध्यायम् 71 वन् राजोवाच उद्यापनं कथं कार्यं व्रतस्यास्य महामदे तन्मे विस्तरदो ब्रूहि लोकानां हितकाम्यया ब्रह्मोवाच प्रथमेमासि कर्तव्यम् पञ्चमे सप्तमे ध उद्यापनं मनुष्येन्द्रव्रतसम्पूर्णहेतवे पूर्वोक्तेन विधानेन पूजयेत् भक्तिमान्नरः पुष्पमण्डपिका कृत्वा नानावस्त्रविचित्रतां कृत्वा दुः सर्वतो भद्रम् नानारङ्गविचित्रतं पूजयेत्तमदेवेश्यं कलशोपरिपूर्ववत् चन्दनेन सुगन्धेन पुष्पैर्नानाविधैरपि नारिकेलफलेनैव दद्यादार्घ्यं समाहितः तिथीनामुत्तमे देवि गणेशप्रियवल्लभे सङ्कटं हरमे देवि गृहाणार्घ्यं नमोऽस्तु ते नमस्तुभ्यं सतद मोदकप्रिय सङ्कष्टं हरमे देव गृहाणार्ख्यं नमोऽस्तु ते अत्रिगोत्रसमुद्भव गृहाणार्घ्यं मया दत्तम् रोहिण्याः सहितः शसिन् भोज्यम् भक्ष्यं चलेह्यं च पेयं चोष्यं निवेदयेद् बलैरन्यश्च बहुभिस्तोषयेद्गणनायकम् आचार्यं वरयेत् तत्र ऋत्विजश्चैकविंशतिम् गणानान्त्वेदि मन्त्रेण अयुदम् होममाचरेत् अथ वा मूलमन्त्रेण सहस्रं वा तदर्थकम् अष्टोत्तरशतम् चापि बलिदानं ततश्चरेत् पूर्णाहुदिं हुनेत्पश्चाद्वसोर्धारा च पादयेत् होमशेषं समाप्यैवं ब्राह्मणान् भोजयेत्तदः वस्त्रयुग्मं च कलशान् दक्षिणासनसंयुतान् तेभ्यो दध्याद्यधाशक्रिवित्तशाढ्यं न कारयेत् आचार्यं पूजयेत्पश्चाद्वस्त्रालङ्करणादिभिः तस्मै भुक्त वदे भुक्तवदे दध्याद्वायनं फलसंयुदं शूर्पपायसम्पूर्णरक्तवस्त्रेण वेष्ठितं सौवर्णं तं गणाधीश्यं तस्मै दद्यादसदक्षिणम् तिलानां माटकं दद्याद्व्रतसम्पूर्णहेतवे तदोगां कपिलां दद्यात् सवत्सां सविभूषणां तदः क्षमापयेद्विप्रान् विघ्नेशप्रियतामिति प्रदस्योद्यापनं कृत्वा हयमेधफलं लभेद पितोवाच एवं मे ब्रह्मणादिष्टं व्रतं लोकोपकारतः तदेतत्कथितम् तेद्य कुरु पुत्रार्थमादराद इन्द्र उवाच यथा यथा समादिष्टं तेन कार्तवीर्येण धीमदा व्याख्याय कथितं सम्यक् पण्डितैर्व्रतमुत्तमं सिद्धिबुद्धियुधां मूर्तिं स्थाप्य काञ्चननिर्मितां महां मण्डपिकामध्ये ब्राह्मणै पठ्यते क्वचित् क्वचित् पुराणं पाण्डित्यं क्वचिद्गायनर्तने नानाविधानां वाद्यानां ध्वनयो निर्गदादिवं विवदन्ते जन क्वापि मध्यस्थाख्य जनाभवन् स दुराजा महाधीमान् जजापपरमं मनुम् जप्त्वा हूत्वा पूजयित्वा भोजयित्वा द्विजान् बहून् गा ददावयुधं तेभ्यो लङ्कृतेभ्यो ह्यलङ्कृतः दीनान्धकृपणेभ्योन्नं ददौ दानन्यनेकशः सन्तुष्टानां स सर्वेषां पुत्राशीर्जगृहे नृपः तेषां द्विजानां तपदां सर्वदा सत्यवादिनाम् आशीर्भिस्वल्पकालेन ससत्वा भून् नृपाङ्गना शुशुभे शुभवेलायां पुत्रं लक्षणसंयुतं ददौ दानन्यनेकानि पुत्रजन्मप्रहर्षितः व्रतबन्धविवाकं च काले तस्य करो नृपः ज्ञानविज्ञानसम्पन्नं पुत्रं राज्ये च सत्पुत्रो भोगसम्पन्नो जगामान्दे पदं विभोहो ऋत्विग्भ्यः पण्डितैः सार्धं तस्य नदे सर्वे प्रक्षकेशमचाग्रमन श्री गणेशपुराणे उपासनाखंडेक ओ